प्रस्थिता स्वानि राष्ट्राणि मापृच्छ्य परंतपाह अनुव्रजत भद्रं वो विषयान्तम् भ्रातुर्वचनमाज्ञाय भ्रातुर्वचनमाज्ञाय पाण्डवाधर्मचारिणः यथार्हम् सर्वाने सर्वानेकैकं समनुव्रजन् तूर्णं दृष्टद्युम्नः प्रतापवान् धनञ्जयो यज्ञसेनं महात्मानं महारथम् भीष्मम् च भीमसेनो महाबलः द्रोणं तु ससुतं वीरं सहदेवो देवो युधाम्पतिः नकुलः सुबलं राजन् सहपुत्रं। समन्वयात् द्रौपदेयाः स सौभद्राः पर्वतीयान् महारथान् अन्वगच्छंस्तथैवान्यान् क्षत्रियान् क्षत्रियर्षभाः एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च युधिषिवाचेद वासुदेव प्रतपवान् आपृे गि द्वार नंदन राजसूय क्रतुश्रेष्ठिष्ट प्राप्तवासी तमुवाच वा मुक्तस्तु धर्मराजोजनादनम तव प्रसादोदा क्रतुवरो क्षत्रं क्षत्रम् समग्रमपि च त्वत्प्रसादाद्वशे स्थितम् उपादाय बलिं मुख्यम् मामेव समुपस्थितम् कथम् त्वद्गमनार्थम् मे वाणी वितरतेनघ न ह्यहम् त्वामृते वीररतिम् प्राप्नोमि कर्हिचित् अवश्यम् चैव गन्तव्या भवता द्वारका पुरी एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् अभिगम्याब्रवीत्प्रीतः पृथाम् पृथुयशा हरिः साम्राज्यं समनुप्राप्ताः पुत्रास्तेद्य पितृष्वसः सिद्धार्थावसुमन्तश्च सा त्वम् प्रीतिमवाप्नुहि अनुज्ञातस्त्वया द्वारकाम् गन्तुमुत्सहे